दस्युभिर्वा निरुद्धानाम् त्वम् गतिः परमानृणाम् जलप्रतरणे चैवा कान्तारेष्वटवीषु च ये स्मरन्ति महादेवी न च सीदन्ति ते नराः त्वम् कीर्तिः श्रीर्धृतिः सिद्धिर्ह्रीर्विद्या सन्ततिर्मतिः सन्ध्या रात्रिप्रभा निद्राज्योत्सा कान्तिक्षमादया नृणाञ्च बन्धनम् मोहम् पुत्रनाशम् धनक्षयम् व्याधिम् मृत्युम्भयञ्चैव पूजिता नाशयिष्यसि सोऽहं राज्यात्परिभ्रष्टः शरणम् त्वाम् प्रपन्नवान् प्रणतश्च यथा मूर्ध्ना तव देवि सुरेश्वरी त्राहि मां सत्ये सत्या भवस्वनः भवमे दुर्गे शरण्ये भक्तवत्सले एवं स्तुता हि सा उपगम्यतु राजानमिदं वचनमब्रवीत् देव्योवाच शृणु राजन्महाबाहो मदीयं वचनं प्रभो भविष्यत्यचिरा देवासङ्ग्रामे विजयस्तव मम प्रसादान्निर्जित्या हत्वा कौरववाहिनीं राज्यं निष्ट